तितमःमः सर्गः ततस्ताम् वृजनीम् युष्य भरतः कृतातिथ्यो भरद्वाजम् कामादभिजगामः तमर्षिः पुरुषव्याघ्रम् प्रेक्ष्य प्राञ्जलिमागतम् कृताग्निहोत्रो भरतम् भरद्वाजोऽभ्यभाषत कच्चिदत्र समग्रस्तेजनः कच्चिदातिथ्येषम् समे न घ तमुवाचाञ्जलिम् कृत्वा भरतोऽभिप्रणम्यच आश्रमादुपनिष्क्रान्तमृषिमुत्तमतेजसम् सुखोषितोऽस्मि भगवन्समग्रबलवाहनः बलवत्तर्पितश्चाहम् बलवान् भगवन् स्वया अपेतक्लमसन्तापाः अभिप्रेष्यानुपादाय सर्वे श्मसु सुखोषिताः आमन्त्रयेऽहम् भगवन् कामम् त्वामृषि सत्तमा समीपम् प्रस्थितम् भ्रातुर्मैत्रेणेक्षस्व चक्षुषा आश्रमन्तस्य धर्मज्ञधार्मिकस्य महात्मनः आचक्ष्वकतमो मार्गः कियानिति च शंसमे इति पृष्टस्तु भरतम् भ्रातुर्दर्शनलालसम् प्रत्युवाच महातेजा भरद्वाजो महातपाः भरतार्धतृतीयेषु योजनेष्वजने चित्रकूटगिरिस्तत्र रम्यनिर्झरकाननः उत्तरम् पार्श्वमासाद्य तस्य नदी पुष्पितद्रुमसञ्छन्ना रम्य पुष्पितकानना अनन्तरम् तत्सरितश्चित्रकूटम् च पर्वतम् तयोः पर्णकुटीम् तात तत्र तौ वसतो ध्रुवम् दक्षिणेन च मार्गेण सव्यदक्षिणमेव च गजवाजसमाकीर्णाम् वाहिनीम् वाहिनीपते वाहयस्व महाभागततो द्रक्ष्यसि राघवम् प्रयाणमिति च श्रुत्वा योषितः हित्वा यानानि यानार्हा ब्राह्मणम् पर्यवारयन् वेपमाना कृशादीना सह देव्या सुमित्रया कौसल्या तत्र जग्राहकराभ्याम् चरणौ मुनेः असमर्धेन कामेन सर्वलोकस्य गर्हिता कैकेयी तत्र जग्राहचरणौ सव्यपत्रपा तम् प्रदक्षिणमागम्य भगवन्तम् महामुनिम् अदूराद्भर तस्यैव तस्थौ दीनमनास्तदा तत्र पप्रच्छ भरतम् भरद्वाजो महामुनिः विशेषम् ज्ञातुमिच्छामि मातॄणाम् तव राघव मुक्तस्तु भरतो भरद्वाजेन धार्मिकः उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः यामिमाम् भगवन्दीनाम् शोकानशनकर्षिताम् पितुर्हि महिषीम् देवीम् देवतामिव एषा तम् पुरुषव्याघ्रम् सिंहविक्रान्तगामिनम् कौसल्या शुशुभे रामम् धाता रमदितिर्यथा अस्या वामभुजम् श्लिष्टा या सा तिष्ठति दुर्मना इयम् सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमा कर्णिकारस्य शाखेवशीर्णपुष्पावनान्तरे तौ देववर्णिनौ। उभौ लक्ष्मण शुघ्नौ वीरौ सत्यपराक्रमौ यघ्रौ जीवनाशत राजनशरथो ग्रोधनामक प्रज्ञा दृप्ता सुबगमिनी ऐश्वर्य काम कैकेय मनाणी ममैताम् मातरं विद्धि प्रशंसाम् पापनिश्चया यतो मूलं हि पश्यामि व्यसनम् महदात्मनः इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा विनिश्वस्य क्रुद्धो नाग इव भरद्वाजो महर्षिस्तं ब्रुवन्तम् भरतम् तदा प्रत्युवाच महाबुद्धिरिदम् वचनमर्थवित् न दोषेणावगन्तव्या कैकेयी भरत त्वया रामप्रव्राजनम् ह्येतत्सुखोदर्कम् भविष्यति देवानाम् दानवानाम् च ऋषीणाम् भावितात्मनाम् हितमेव भविष्यद्धि रामप्रव्राजनादिहा अभिवाद्य तु संसिद्धः कृत्वा चैनम् प्रदक्षिणम् युज्यतामिति चाब्रवीत् ततो वाजरथान युक्त्वा दिव्यान् हेमविभूषितान् अध्यारोहप्रयाणार्थम् बहून् बहुविधो जनः गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः जीमूता इव घर्मान्ते सघोषाः सम्प्रत स्थिरे विविधान्यपि यानानि महान्ति च लघूनि च प्रययुः पादैरपि पदातयः अथ यानप्रवेगैस्तु कौसल्या प्रमुखा स्त्रियः रामदर्शनकाङ्क्षिण्यः प्रयजुर्मुदितास्तदा चन्द्रार्कतरुणाभासाम् नियुक्ताम् शिबिकाम् शुभाम् आस्थाय प्रयजौ श्रीमान्भरतः सपरिच्छदः सा प्रयाता महासेना गजवाजिसमाकुला वनानि च व्यतिक्रम्य जुष्टानि मृगपक्षिभिः गङ्गायाः परवेलायाम् गिरिश्वथ नदीष्वपि सा सम्प्रहृष्ट द्विपवाजि यूथा वित्रासयन्ती इत्यार्षे श्रीमद् अयोध्यात सर्ग